अहं पूर्वमहं पूर्वम् इत्यन्योन्यं निजघ्नतुः तौ गदाभिहतौ भीमौ प्रेततुर्धरणीतले रुधिरेणावसिक्ताङ्गौ द्वाविवार्कौ न भश्च्युतौ ततस्ता विद्रुता नार्यः स च दैत्यगणस्तथा पातालमगमत् सर्वो विषादभयकम्पितः ततः पितामहस्तत्र सह देवैर्महर्षिभिः आजगाम भगवान् प्रपितामहः वरं दिस्सुः स तत्रयीणाम् प्रीतः प्राहपितामहः आदित्यचरिताल्लोकान् विचरिष्यसि भाविनी तेजसा च सुदृष्टाम् त्वाम् न कश्चन एवं तस्यै वरम् दत्त्वा सर्वलोकपितामहः इन्द्रे त्रैलोक्यमाधाय ब्रह्मलोकम् गतः नारद उवाच एवं तौ सहितौ भूत्वा सर्वार्थेष्वेकनिश्चयौ तिलोत्तमार्थम् सङ्क्रुद्धावन्योन्यमभिजघ्नतुः तस्माद्ब्रवीमिव स्नेहात् सर्वान् भरतसत्तमाः यथा वो नात्रभेदः स्यात् सर्वेषाम् द्रौपदी कृते तथा कुरुत भद्रं वो मेत प्रिय